सौतिरुवाच सौतिवाच तजनयाुष्टाया प्रभातेभ्युदि रव कद्रूश्च विनता चगि तपोधन अमर्षि संरधे दापणे तग्म स्तुरगं द्रष्टुच्च्रवसमति का ददृशा तेथ ते तत्र समुद्रन्निधिमम्भसाम् महान्तमुदकागाधङ्क्षोभ्यमाणम् महास्वनम् तिमिङ्गिलझषाकीर्णम् मकरैरावृतम् तथा सत्वैश्च बहुसाहस्रैर्नारूपैः समावृतम् भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा उग्रैर्नित्यमनाधृष्यम् कूर्मग्राहसमाकुलम् आकरम् भर्वरत्नानामालयम् वरुणस्य च नागानामालयम् रम्यमुत्तमम् सरिताम् पतिम् पातालज्ज्वलनावासमसुराणाम् च बान्धवम् भयङ्करम् घोरञ्जलचरारावौद्रम्भैरव निःस्वनम् गम्भीरावर्तकलिलम् सर्वभूतभयङ्करम् वेलादोलानिलचलङ्क्षोभोद्वेगसमुच्छ्रितम् वीची हस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः चन्द्रवृद्धिक्षयवशादुद्धृतोर्मिसमाकुलम् पाञ्चजन्यस्य जननौ रत्नाकरमनुत्तमम् गाँविन्दता भगवता गोविन्देनामि तौ जसा वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ब्रह्मर्षिणा व्रतवता वर्षाणान् शतमत्रिणा अनासादितगाधम् च पातालतलमव्ययम् अध्यात्मयोगनिद्राम् च पद्मनाभस्य सेवतः युगादिकालशयनौ विष्णो रमिततेजसः वज्रपातनसन्त्रस्तमैनाकस्याभयप्रदम् डिम्बाहवार्दितानाम् च असुराणाम् परायणम् बडवामुखदीप्ताग्ने स्तोय हव्यप्रदम् शिवम् अगाधपारौ विस्तीर्णमप्रमेयम् सरित्पतिम् महानदीभिर्बह्वीभिः स्पर्ध एव सहस्रशः अभिसार्यमाण मनिषन् ददृशा ते महार्णवम् आपूर्यमाणमत्यर्थम् नृत्यमानमिवोर्मिभिः गम्भीरन्तिमिमकरोऽग्रसङ्कुलन्तम् गर्जन्तम् जलचररावरौद्रनादैः विस्तीर्णन्ददृशतुरम्बरप्रकाशन्ते गाधन्निधिमरुमम्बसामनन्तम्